मुद्गलपुराणं खण्डं फ़ोर् गजाननचरितम् अध्यायं फोर्टि गजाननप्रादुर्भावं श्रीगणेशाय नमः मुद्गल उवाच तदो बहौ काले दानवा बलदर्पिताः जगुर्लोभासुरं तत्र लोभयुक्ता विशेषतः धानवेन्द्रा ऊचुः देवालोभासुरस्वामिन्नस्माकं शत्रवो मदाः सुराश्चासुरवर्याणां वेदे प्रोक्ता विचारया। शास्त्रास्त्रायर्देवसङ्खास्ते देवसंखास्ते मरिष्यन्ति कर्हि अमरा वेदशास्त्रेषु कथिता कर्मादेवदस्वामिन् क्षदे कर्मणि तत्क्षणाद मरिष्यन्ति महाभाग तदर्थं यत्नमाचर जित्वा ब्रह्माण्डगोलं किं संस्थितोऽसि महासुर न कृतार्थस्त्वमेवैवं कदा जीवत्सु शत्रुषु हिरण्यकशिपुर्जित्वा पुरा देव देंगणानन राज्यम चकार सर्वत्र शु न संशय तद प्रयत्नेन प्रयत्न नर्मदो नृह तेन हवा सुराधीशं देवास्वस्थान बभु अतस्व दैत्यराजेन्द्र हिद् गुर विशेषधा चीर महाराज सुखयुक्तो भविष्यसि तेषां वचनमाकर्ण्य लोभा सुरः सुमन्दधीः आज्ञापयत्तदो दैत्यो दैत्येन्द्रान् कर्मखण्डने तदो गजा सुराद्याश्च निर्गदा क्रोधसंयुताः यत्र तत्र द्विजान्धृत्वा जघ्नुर्यज्ञान्विशेषतः यज्ञवृक्षांस्तथागाश्च तीर्थानि यत्र तत्र ते जघ्नोर्बभञ्झुरत्यन्तम् कर्मखण्डनकारणाद् दे। बभञ्झुक्रोधसंयुक्ता देवता यतनानि ते स्वधर्मस्थं जनम् दृष्ट्वा जघ्नोर्दानवसप्तमाः सर्वत्र दानवाधीशैर्लोभासुरस्य मूर्तयः जह्नैः पूज्या कृदा कृदादक्ष तदाधारं बभूवः न स्वाहा न कुत्र बभूव प्रलये यथा नवस्कारकं कर्मत्रासितं भूमिमण्डलं लोभासुरयुधं सर्वैः कर्मथै प्रतिपादितं तदोहाकारवैर्युक्ता बभूवुर्मनवाः प्रभो ब्राह्मण वनगा भूवा केजिम मरणनिश्चया चक्रुकर्म तथा भ्रष्टा बभूवो बहवो झं बौ गा दैवा परम दुखिता उपवासपर सर्वे बभूवस्ते प्रजापद ततोति यत्नसंयुक्ता विचारं चक्रुरञ्जसा लोभा सुरविनाशाय नः प्राकुस्ते दिवौकसः तदोति दुःखिता सर्वे किं कुर्म इति विह्वलाः सन्तस्तु पर्वतोद्देश्ये गुप्तभावेन देवपाहा तत्रा जगामयोगीन्द्रो रैभ्यः सर्वप्रियङ्करः अवधूतस्वरूपेण साक्षाद्विघ्नेश्वरो यथा तं प्रणम्य शिवाद्यास्ते पप्रत्युर्लोभनाशकम् उपायं दीनभावेन सास्ति चर्मावशेषिताः तदोधिकरुणायुक्तो रैभ्यः सर्वार्थको विदः जगादतान् सुरेन्द्रान् स दीनान् दृष्ट्वा विशेषतः रैभ्य उवाच शृणुध्वं विष्णु शम्भ्वाद्य मुनयस्तत्त्वभाविदाः लोभासुरो महाभावि दुर्भयो नात्र संशयः विघ्नराजं तदपि वै भजध्वं भक्तिसंयुधाः तेनायं सुजयो देवा भविष्यति विशेषतः स्वयं साक्षाद्बुद्धिपदिर्बुद्धिं सञ्चालयिष्यति गजाननस्य मन्त्रं वै जपध्वं विधिपूर्वकम् एवमुक्त्वा महायोगी रैभ्यः स्वच्छन्दगो शिवादयो महाभागा हर्षिदा सं बभूविरे गजाननस्य मन्त्रं ते जे पुस्तपःपरायणाः सविधिं ध्यान संयुक्तास्तोषयामासुरन्वहं निराहारप्रभावेण सन्तुष्टो भक्तिभाविदः शतवर्षेषु देवेशानाय गजाननः दृष्ट्वा गजाननम् तेदु हर्षिदा देवनायकाफ देवा मुनिगणा सर्वे पुपूजस्नेहसंयुताः कृत्वा परपुटं भ्रिया तुष्टुवुस्तं गजाननं पुनरुद्धायते सर्वे प्रणेमुस्तं गजाननं देवर्षय उजुः गजानननमस्तुभ्यं सर्वेषां बीजरूपिणे निर्बीजाय गणेशाय विघ्नानां पदये नमः अनन्दायैकदन्दाय हैरम्भाय नमो नमः चतुर्भुजाय सर्वे च दे ते नमः सर्वसिद्धिप्रदात्रे च सुरासुरमयाय बुद्धि सिद्धिबुदिप्रचालाय सिद्धिपदे नम अगुणा गुणेशा गुणरू गौणिने मयाम मयाचा परात्मने, सर्वादये महोदार पराक्रम पराय स्वानंदवासी नमस्वानंदयिने योगापराय योगानां स्वामिने शान्दिदायिने ब्रह्मणस्पदयेतेस्तु ब्रह्मणां ब्रह्मणे नमः अनाधाराय सर्वेषामाधाराय नमो नमः आदिमध्यान्दहीनायादिमध्यान्दाय ते नमः परस्वङ्गुशहस्ताय त्रिनेत्राय महोदर नमो मूषकवाहाय मूषकध्वजिने नमः नमो नमस्ते सकलाय धाम्ने सदा सुखानन्दकराय पात्रे जगत् सुश्रष्ठे सकलस्य कन्द्रे गुणैर्विहीनाय गणाधिपाय विदेहरूपाय पराय भोक्त्रे बोधेन हीनाय सुसाङ्ख्यकाय सदा परसंस्थिताय गजात्मरूपाय नमो नमस्ते बोधहीनं च तदेव गजवाचकं गजचिह्नेन योगीन्द्राः पश्यन्ति गजाननम् यथा मुखस्य चिह्नेन ज्ञायन्ते मानवादयः तदा विदेहचिह्नेन ज्ञायसे त्वं तु योगिभिः विदेहं गजरूपं यत्ते नदे दे मुखमुच्यते गणेशस्य प्राप्तिकरं गजानननमोऽस्तु ते किं तवामगणाधीश यत्र वेदातिकास्तथा योगिनः शान्तिमापन्नास्तं वयं शरणं गदाः तुत्वा विघ्नेश्वरं तुदे ते प्रणेमुस्थं पुनः पुनः गणाधीशो हर्षयन् सर्वभावविद गजानन उवाच स्तोत्रं भवत्कृतं देवा ईश्वरा मुनयश्च मे सर्वसिद्धिप्रदं पूर्णं भविष्यति निरन्तरं यद्यदिच्छति तत्तद्वै दास्यामि भक्तियन्त्रिदः पठनाश्रवणादस्य सन्तुष्टोऽहं विशेषतः वरदोऽहं वृणुद दा वो दास्यामि वरमीप्सिदं तपसा भक्तिभावेन स्तोत्रेण तुष्टिमागतः गजाननवच श्रुत्वा हर्षिदा देवहर्षयः प्रत्युचिरे प्रणम्येदं वचनं सर्वसौख्यदं देवर्षय ऊजुः लोभासुरेण त्रासिदं भुवनत्रयं वयं कर्म विहीनत्वादुपोषणयुधाकृताः अतस्त्वं जहि दैत्येशं सर्वा जेयं गजानन तव भक्तिं दृढां देहि लोभहीनां विशेषतः तेषां वचनमाकर्ण्य गजानन उवाच तान् मा भयम् कुरुदप्राज्ञा हनिष्यामि महासुरं लोभहि नामदीया या भक्तिर्वश्च भविष्यदि अधुना दानवेन्द्रम् तम् जेष्यामि च न संशयः मुनीन् देवानेव मुक्त्वा भवत्तत्रैव संस्थितः सर्वेषाम् कार्यसिद्ध्यर्थं गजाननः ओं तत्सदी श्रीमदांद्ये पुराणोपनिषद्रीमद्गले महापुराणे चुर्थे खंडे जरिदे, गजानन प्रादुर्भावो नाम चंशोध्याय ओं